दिव्यांश्चैवान्तरिक्षांश्च पार्थिवांश्च पितामह अपि चैद्यस्य पतनाच्छन्नमुत्पातिकम् महत् वैशम्पाय न उवाच राज्ञस्तु वचनम् श्रुत्वा पराशरसुतः प्रभुः कृष्णद्वैपायनो व्यास इदं वचनमब्रवीत् त्रयोदश समाराजन् फलम् महत् सर्वक्षत्रविनाशाय भविष्यति विशाम्पते त्वामेकम् कारणम् कृत्वा कालेन भरतर्षभ समेतं पार्थिवं क्षत्रम् क्षयं यास्यति भारत पराधेन भीमार्जुनबलेन च स्वप्ने द्रक्ष्यसि राजेन्द्रः क्षपान्ते त्वं वृषध्वजं नीलकण्ठं भवं स्थाणुं कपालिं त्रिपुरान्तकम् उग्रं रुद्रं पशुपतिं महादेवमुमापतिं हरं शर्वं वृषं शूलं पिनाकिं कृत्तिवाससं कैलासकूटप्रतिमं वृषभेवस्थितं शिवं निरीक्षमाणं सततं पितृराजाश्रितां दिशम्